गरुडपुराणम् आचारकाण्डम् अध्यायं 131 अण्ड् तर्टि वन् ब्रह्मोवाच ब्रह्मन् भाद्रपदेमासि शुक्लाष्टम्यामुपोषितः दोर्वां सौरीं गणेशं च फलपुष्पै शिवं यजेद फलव्रीह्यादिभिः सर्वैः शम्भवे नमः शिवाय त्वं दूर्वे मृतजन्मासि ह्यष्टमी सर्वकामभाक अनग्निपक्वमश्नीयान्मुच्यते ब्रह्महत्यया कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेऽर्चनं कार्याविद्धापि सप्तम्याहन्तिपापं त्रिजन्मनः उपोषितोर्चयै उपोषितोर्चयेन्मन्त्रैस्थितिधान्दे च पारणम् योगाय योगपदये योगेश्वराय योगसम्भवाय गोविन्दाय नमो नमः यज्ञाय यज्ञेश्वराय यज्ञपदये गोविन्दाय नमो नमः विश्वाय विश्वेश्वराय विश्वपदये गोविन्दाय नमो नमः सर्वाय सर्वेश्वराय सर्वेदाय सर्वस् सर्वसम्भवाय गोविन्दाय नमो नमः स्तण्डिले पूजये देवं स चन्द्रां रोहिणीं तथा सङ्केतोऽयं समादाय सपुष्प पुष्पफलचन्दनं जानुभ्यामवनीं गत्वा चन्द्रायार्ख्यं निवेदयेत् क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भव गृहाणार्घ्यं च चाङ्गेश्य सहिदो सहितो मम श्रियै च वसुदेवाय नन्दाय च बलाय च यशोदायै तदो दद्यादर्घ्यं फलसमन्नितम् अनन्दं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् वासुदेवं हृषिकेशम् माधवम् मधुसूदनम् वराहम् पुण्डरीकाक्षम् नृसिंहम् दैत्यसूदनम् दामोदरम् पद्मनाभम् केशवम् गारुडध्वजम् गोविन्दमच्युतम् देवमनन्दमपराजितम् अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् अनादिनिधनं विष्णुं त्रिलोकेशम् त्रिविक्रमं नारायणं च दुर्बाहुं शङ्खचक्रगदाधरम् पीताम्बरधरम् दिव्यं वनमाला विभूषितम् श्रीवत्साङ्गं जगद्धाम श्रीपदिं श्रीधरं हरिं यं देवं देवगी देवी वसुदेवादजीजनद भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः नामेन्यादानि सङ्कीर्त्यगत्यर्थं प्रार्थयेत्पुनः त्राकि मां देवदेवेश हरे संसार सागराद संसारसागराद त्रागि मां सर्वपापघ्नदुःखशोकार्णवात्प्रभो देवगीनन्दनश्रीश्च हरे संसारसागराद दुर्वृत्तां स्त्रायसे विष्णो ये स्मरन्ति सकृत्सकृद सोऽहं देवादि दुर्वृत्तस्त्राहिमां शोगसागराद पुष्कराक्षनिमङ्नोऽहं महतज्ञानसाहरे ज्ञानसागरे त्रामाम् देवदेवे शक्त्वा मृतेऽन्योनरक्षिता स्वजन्म वासुदेवाप गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः शान्तिरस्तु शिवम् चास्तु धनविख्यादिराज्यभाक् इति श्री कारुडे महापुराणे आचारकाण्डे कृष्णाष्टमीव्रतनिरूपणं नामैकत्रिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् तर्टि टु ब्रह्मोवाच नक्ताशीत्वष्टमीं यावद्वर्षान्ते चैवधेनुदः पौरन्दरपदं यादि सद्गतिव्रतमुच्यते शुक्लाष्टम्यां पौषमासे महारुद्रेदि साधु वै मत्प्रीतये कृतं देवि शधसाहस्रिकं फलम् अष्टमी बुधवारेण पक्षयोरुभयोर्यदा भविष्यति तदा तस्यां व्रतमे दद्कथा परा तस्याम् नियमकर्तारो न स्युःखण्डितसम्पदः तण्डुलस्याष्टमुष्टीणाम् वर्जयित्वाङ्गुलिद्वयम् भक्तम् सद्भक्ति श्रद्धाभ्याम् मुक्तिकामीः मानवः आम्रपत्रपुडे कृत्वा यो भुङ्क्ते कुशवोष्ठिते कलम्भि काम्लिकोपेदं काम्यं तस्य फलं भवेद् बुधं पञ्चोपचारेण पूजयित्वा जलाशये शक्रितो दक्षिणं दद्यात् कर्तरीं तण्डुलान्विदान् बुं बुधा येदि बीजां स्यात् स्वाहान्तः कमलाधिकः बाणश्चापधरं श्यामं दले चाङ्गनिमध्यदः बुधाष्टमी कथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम् पुरे पाडलीपुत्राख्ये वीरो नाम द्विजोत्तमः रम्भाभार्या तस्य शासीत् कौशिकपुत्र उत्तमः दुःखिता विजया नाम्नी वनपालो वृषो भवत गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गदो रमद गोपालकैर्वृषश्चौरै बलाद। बलाद् गङ्गा तस्स च उद्धाय वनं जलार्थं विजया चागान मात्रा। सार्धं च चाप्यगाद पिपासितो मृणालार्थो आगतोऽध सरोवरम् दिव्यस्त्रीणां च पूज्यादीन् दृष्ट्वा चाप्यथ विस्मृतः सदा गत्वा यया चेन्नम् स्त्रियो ब्रुवन् व्रतम् कर्तुम् दास्यामश्च कुरु पत्न्यर्थम् धनपानार्थम् पूजयामासतुर्बुधं चतुर्बुधम् पुडद्वयम् गृहीत्वा नम्बुभुजादे पदत्तकम् स्त्रियो गदास्तौ धनदौ धनपानमपश्यताम् चौरायुर्दत्तम् गृहीत्वाधप्रदोषे प्राप्तवान् गृहम् वीरम् च दुःखितम् नत्वा रात्रौ सुप्तो यथा सुखम् कन्यां च युवतीं दृष्ट्वा कस्मै देया सुदामया यमायेत्यब्रवीदुःखात् सा चाराद्व्रतसद्फलात् स्वर्गम् गतौ च पितरौ व्रतम् राज्याय कौशिकः चक्रे योध्या महाराज्यम् दत्त्वा च भगिनीं यमे यमोऽपि विजयामाह गृहस्था भवमे पुरे नोद्धाडयान्यत्र गदे यमे सा करोद अपश्यन्मादरं स्वां सा पाश्चयातनया कौशिकोक्दं, अधोद्विघ्ना कौशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रदम् चक्रे च सा ततो मुक्ता मादा तस्माच्चरे व्रतम् व्रतपुण्यप्रभावेण स्वर्गं गत्वा वसत्सुखम् इति श्रीगारुडे महापुराणे आचार्यकाण्डे बुधाष्टमीव्रतनिरूपणं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः दा ओम् अध्यायं 133 अण्ड् टर्टि त्रि ब्रह्मोवाच अशोककलिकाह्यष्टौ ये पिबन्ति पुनर्वसौ चैत्रेमासि सिताष्टम्यां न दे शोकमवाप्नुयुः त्वामशोकहरभीष्टमधुमाससमुद्भव पिबामि शोकसन्दप्तो मामशोकं सदा कुरु ब्रह्मोवाच शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युगा सा महानवमीत्युक्ता स्नानदानादि चाक्षय्यं नवमी केवला चापि दुर्गां चैव दु पूजयेत् महाव्रतं महापुण्यं ्यादौ राजा शत्रुजयाय च जपहोम समयुक्तकन्यां वा भोजयेत् सदा दुर्गे दुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽकाः षड्भिपदैर्नमः स्वाहा वषडादिहृदाधिकम् अङ्गुष्ठाधिकनिष्टान्तं न्यस्य वै पृजयेच्छिवाम् पूजयेच्छिवाम् अष्टम्यां नवगेहानि दारुजान्येकमेव वा तस्मिन् देवी प्रकर्तव्या हैमि वा शूले शङ्गे पुस्तके वा पडे वा मण्डले यजेद कपालं खेटकं खण्डां दर्पणं दर्जनीं धनः ध्वजं दमरुकं पाशं वामहस्तेषु बिभ्रति शक्तिं च मुद्गरं शूलं वज्रं खड्गं तथाङ्गुष्यं शरं चक्रं, शलाकां च दुर्गामायुधसंयुधां शेषाषोडशहस्तां विना रुद्रचण्डा च चण्डोग्रा चण्डनायिका चण्डा चण्डवदी चण्डिका नवमी चोग्रचण्डा च रोचनात्वरुणा कृष्णानिलन्धूं राज शुक्रका पाता च पाण्डुरा प्रोक्ता आलीढम् हरितम् तथा महिष्योऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः जक्त्वा दशाक्षरीम् विद्याम्ना सौकेनापि बध्यते पञ्चदशाङ्गुलं खड्गं त्रिशूलं च तदो यजेद लिङ्गस्यां पूजयद्वापि पादुकेथ जलेऽपि वा विचित्रां रक्षयेत् पूजामष्टम्यामुपवासयेद पञ्चाब्दम् महिषम्भस्तं रात्रिशेषे च खादयेद् विधिवत् रुधिरादि तदुद्धरुधिरादिकं नैरृत्यां पूदनं चैव वायव्यां पापराक्षसीं दद्या चरख्यै चैशान्यामाग्नेयां च विदारिकाम् इति श्रीकारुडे महापुराणे आचार्यकाण्डे महानवमीव्रतम् नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् 134 अण्ड् थर्टि फोर् ब्रह्मोवाच महाकौशिकमन्त्रश्च कथ्यतेऽत्र महाबलः ॐ हों होम् कुल्वा प्रस्फुरलल कुल्व कुल्व चुल्व चुल्व कल्लखल्लमुलमुल्व गुल्व गुल्व तुलुल्ल पुल्ल धल्व धुल्व धुम धुम धमधम मारय मारय धगध वज्ञापयज्ञापय विदारय विदारय कम्ब कम्ब कम्बय कम्बय पूरय पूरय आवेशय आवेशय ॐ ह्रीं ॐ ह्रीं हं वं वं हुं तडतडमदमद ह्रीं ॐ हुं नैरृताय नमः निरृतये दातव्यं महाकौशिकमन्त्रेण मन्त्रितम् बलिमर्पयेद् तस्याग्रदो नृपस्नायाच्छत्रम् कृत्वा च पैष्टिकम् खड्गेन खादयित्वादु दद्या स्कन्दविशाखयोः मातॄणां चैव देवीनां पूजाकार्या तथा निशि ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा वाराही चैव माहेन्द्री चामुण्डा चण्डिका तथा जयन्तीमङ्गलाकाली भद्रकाली कपाहिनी दुर्गाक्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु दे स्नापये देवी कन्यका प्रमदास्तधा द्विचादीनद पूजयेद द्वज पत्रपदा पत्रपदापाद्यै रथयात्रासु वस्त्रकैः महानवम्यां पूजेयं जयराज्यादि दायिका इति श्रीगरुडे महापुराणे आचार्यकाण्डे महानवम्यां महाकौशिकमन्त्रकृत्यादिविवरणं नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् तर्टि फैव् ब्रह्मोवाच नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेद देवीं वि ं लक्षमे गञ्जपे द्वीरं व्रदी नरः ब्रह्मोवाच चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत आयुरारोग्यसौभाग्यं चतुर्भिश्चा पराजितः ब्रह्मोवाच दशम्यामेकभक्ताशी समान्दे देशधेनुदः दिश्यश्च काञ्चनीर्दत्वा ब्रह्माण्डाधिपतिर्भवेत् एकादश्या मृषिपूजाकार्या सर्वोपकारिका धनवान् पुत्रवांश्चान्दे ऋषिलोके महीयते मरीचिरत्र्यम् गिरसौ पुलसत्यपुलः क्रतुः प्रजेताश्च वसिष्ठश्च भृगुर्नारद एव च चैत्रादौ कारये पूजां माल्यैश्च दमनोद्भवैः अशोकाख्याष्टमी प्रोक्ता वीराख्या नवमी तथा दमनाख्या दिग्दशमी नवम्येकादशी तथा इति श्रीगारुडे महापुराणे आचार्यकाण्डे ऋष्येकादशी व्रतम् नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् तर्टिसिक्स् ब्रह्मोवाच श्रवणद्वादशोम्भक्ष्ये भुक्तिमुक्तिप्रदायिनीम् एकादशी द्वादशी च श्रवणेन च संयुता विजया सातिथिप्रोक्ता हरिपूजादिचाक्षयम् एकभक्तेन नक्रेण तथैवा याचितेन च उपवासेन भैक्ष्येण नैवाद्वादशिको भवेद कास्यं मांसं तथा क्षौद्रं लोभं विदधभाषणं व्यायामं शव्यवायं च दिव्या स्वप्नमधाञ्जनं शिलाष्ठिष्ठम् मसुरं च द्वादश्यां वर्जयेन्नरः मासी भाद्रपदे शुक्ला द्वादशी श्रवणान्विता महदि द्वादशी ज्ञेया उपवासे महाफला सङ्गमसरिदां स्नानं बुधयुक्ता महाफला कुम्भे सरत्ने सजले यजेत्स्वर्णं तु वामनं सिद युगच्छन्नम् चत्रोपानद्विगान्वितम् ॐ नमो वासुदेवाय शिरः सम्पूजयेत् ततः श्रीधराय मुखम् तद्वत्कण्ठम् कृष्णाय वै नमः नमः श्रीपदये वक्षो भुजौ सर्वास्त्रधारिणे व्यापपाय नमः कुक्षौ त्रैलोक्यपदये जंगे सर्व भृदे नमः सर्वात्मने नमः पादौ नैवेद्यं कृतपायस्सं कुम्भांश्च मोदपान् दद्याज्जागरं कारयेन्निशि स्नात्वा चान्दोर्चयित्वा तु कृतपुष्पाञ्जलिर्वदे नमो नमस्ते गोविन्दबुधश्रवणसंज्ञक अखौकसंक्षयम् कृत्वा सर्वसौख्यप्रभो भव प्रीयताम् देवदेवेशो विप्रेभ्य कलशान् ददेद नभ्यस्थीरे यः वा नभ्यस्थीरे यः वा कुर्या सर्वान् कामानवाप्नुयात् इति इत्रिश, श्रीकारूडे महापुराणे आचार्यकाण्डे श्रवणद्वादशीव्रत निरूपणं नाम षष्ट्रिंशदुत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् तर्टि सेवेन् ब्रह्मोवाच कामदेवत्रयोदश्याम् पूज्योदमनपादिभिः रतिप्रीतिसमयुक्तो ह्यशोको मणिभूषितः चतुर्दश्याम् तथाष्टम्याम् पक्ष्यो शुक्लकृष्णयोः यौम् पदमेकं न भुञ्जीत त्रिरात्रो ओषितो दद्यात् कार्तिक्याम् भवनम् शुभम् सूर्यलोकमवाप्नोति धामव्रतमिदम् शुभम् अमावास्याम् च दत्तम् जलादिदक्षयं न कदाभ्याशीवराणाम्ना यजन्वाराणि सर्वभाक द्वा विप्रर्षे विप्रर्शे प्रतिमासं तु यानि वै तन्नाम्नान्ते तच्युदन्तेषु सम्यक् सम्पूजये नरः केशव मार्गशीर्षे तु इत्यादौ कृतिकाधिके कृदहोमश्चतुर्मासं कृत्सरञ्च निवेदयेद् आषाढादौपायसं तु विप्रांस्तेनैव भोजयेत् पञ्चाव्यजलस्नानैवेद्यर्नकृतमाचरेद् अर्वाग्विसर्जनाद्रव्यं नैवेद्यं सर्वमुच्यते विसर्जिते निर्माल्यं भवतिक्षणाद पाञ्चरात्रविदो मुख्य नैवेद्यं भुञ्जते स्वयम् एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेद नमो नमस्तेऽच्युत संक्षयोस्तु, पापस्य वृद्धिं समुपैदु पुण्यम् ऐश्वर्यवित्तादिसदाक्षयं मे तथास्तु मे सन्तरि सन्ततिरक्षयैव यदाच्युतत्वं परतः परस्मात् सब्रह्मभूतः परतः परस्माद तदाच्युतं मे कुरुवांचिदं सदा मया कृतं पाप हरा प्रमेय अच्युदानन्दगोविन्दप्रसीद यदभीप्सिदं तदक्षयममे तदक्षयममेयात्मन् कुरुष्व पुरुषोत्तम कुर्याद्वैसप्तवर्षाणि आयुश्रीसद्गदीर्नरः उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीं सप्तमीं पूजयद्विष्णुम् दुर्गां शम्भुम् रविप्रमाद तेषाम् लोकम् समाप्नोति सर्वकामांश्च निर्मलः एकभक्तेन नक्रेण तथैवायाचितेन च उपवासेन शाकाध्यै पूजयन्त सर्वदेवताः सर्वः सर्वासु सर्वा तिथिषु भुक्तिमुक्तिमवाप्नुयाद धनदोऽग्निप्रतिपदिना सत्योदस्त्र अर्चितः श्रीर्यमश्च द्वितीयायां पञ्चम्यां पार्वती श्रिया नागाषष्ट्यां कार्तिकेयः सप्तम्यां भास्करोर्धतः दुर्गाष्टम्यां माधरश्च नवम्यामदतक्षकः इन्द्रोदशम्याम् धनद एकादश्यां मुनीश्वराः त्वादश्यां च हरिम् कामत्रयोदश्याम् महेश्वरः चतुर्दश्याम् पञ्चदश्याम् ब्रह्मा च पितरोपरे महापुराणे आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणम् नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ओम् 138 प्रवक्ष्यामि दक्षोङ्गुष्ठा च तस्य वै ततोऽपि ततोऽपि दर्विवस्वांश्च ततः सूनुर्विवस्वतः मनो रिक्ष्वाकुचर्यादि नृगो दृष्टप्रषध्रतः नरिष्यन्तश्च नाभागो दिष्टः शश एव मनो रासीदिलाकन्या सुद्युं नोऽस्य सुदो भवद इलायान्तु बुधा जादो राजारुद्रपुरुरवः सुधात्रयश्च सुद्युम्ना दुत्कलो विनदोगयः अभृच्छदो अभृच्छ्रद्रो दुष्टपुत्रस्तु नाभागो वैश्याताम गमत्स च तस्मात् भलन्दनपुत्रो वत्स प्रीतिर्भलन्तनाद तदपाशु भूपस्तस्मात् तदक्षपः क्षुपाद्विंशो भवत्पुत्रो विंशाज्जादो विविंशकः विविंशाच्च कनि नेत्रो विभूतिस्तत्सुतस्मृदः करन्धामो विभूतेस्तु तदो जादोऽप्यवीक्षितः मरुतो वीक्षितस्याभि नरिष्यन्तस्तदस्मृदः नरिष्यन्तात्तमो जातस्तदो भूद्राजवर्धनः राजवर्धनास्तुधृदिश्च नरो भूत् सुधृदेस्सुदः नरा च केवलपुत्रकेवलान् दुन्दुमानवी दुन्दुमदो वेगवांश्च बुधो वेगवदः सुदः तृणबिन्दुर्बुधा ज्ञाधः तृणबिन्दुर्बुधा जाधकान्या चैलविला तथा विशालं जनयामास तृण बिन्दोस्त्वलम्बुः स विशालाद्धेमचन्द्रो भूद्धेम चन्द्राश्च चन्द्रकः धूम्राश्वश्चैव चन्द्रा तु धूम्राश्वात्सृञ्जयस्तथा सञ्जयात्सह देवोऽभूत् कृशाश्वस्तत्सुतोऽभवद कृशाश्वात् सोमदत्तस्तु तदो भूजनमे जयः तत्पुत्रश्च सुमन्दिश्च येदे ते वैशालका नृपाः शर्यादेस्तु सुकन्या भूत् सा भार्याच्यवनस्य दुः अनन्दो नाम शार्यतेरनन्दाद्रेवतो भवदो रैवताद्रेवदी सुदा दृष्टस्य धाष्टार्कम् क्षेत्रम् वैष्णवम् तद्वभूवः नाभागपुत्रो नेष्टो ह्यम्बरीषोऽपि तत्सुदः अम्बरीषाद्विरूपो भूत् पृषदस्यो विरूपदः रथीनरस्त तत्पुत्रो इक्ष्वाकोस्तु त्रयपुत्रा विकुक्षिनिमिदण्डकाः इक्ष्वाकुचो विकुक्षिस्तु शारदशशभक्षणाद पुरञ्जयशशादा च कगुस्थाख्यो भवत्सुतः अनेनास्तु कगुस्थाश्च पृथुःपुत्रस्त्वनेन विश्वरादप्रदोपुत्र पुत्र आर्द्रे भूद्विश्वरारदः युवनाशो भवर्द्राश्चावस्थो युवनाश्वदः बृहदश्वस्तु चावस्था तत्पुत्र कुवलाश्वकः दुन्धुमारोहि विख्यातो हर्यश्व दृढश्वदः हर्यश्व च निगुम्भो भूधिदाश्वश्च निगुम्भदः पूजाश्व हिदाश्वा च तत्सुतो युवनाश्वपः युवनाश्वा दादा बिन्दुमत्यास्तदो भवद मुजुकुन्दोऽम्बरीषश्च पुरुकुत्स पंचाश्क भारसरेर् मुनेुनाश्योंबरीषा चरीदो युवनाश्वुत्सा नर्मदायासदुरभुत्सुद अनरण्यद जाो व्यनरण्यदः ततो तत्पुत्रो भूद्वस् सुमनास्त्रिधन्वा तस्य चात्मजः त्रय्याजुनस्तस्य पुत्रस्त सत्यरतः सुदः यस्त्रिशङ्कुसमाख्यादो हरिश्चन्द्रो भवत्तदः हरिश्चन्द्राद्रोहिदाश्वो हरिदोरोहिदाश्वदः हरितस्य सुदश्चञ्चुचञ्चोश्च विजयः सुदः विजया धृद्रको जज्ञे ऋका तु मृगः सुदः मृगाद्मासुर्नृपभूच बाहोऽस्तु नगरस्मृदः षष्टिपुत्रसहस्राणि सुमत्या सगराद्धर केशिन्यामेक एव सा वसमञ्जतसञ्ज्ञकः तस्यां स्युमान्सुधो विद्वान् दिलीपस्तत्सुधो भवद भगीरथो दिलीपा च यो गङ्गामानयद्भुवन् श्रुतो भगीरथसुधो नाभागश्च श्रुतात् किल नाभागादम्बरीषो परिषदः सिन्धुद्व्यूपस्यायुधायुहृदु पर्णस्तदात्मजः हृदु पर्णाः सर्वकामस् सुदासो भूस्तदात्मजः सुदासस्य च सौदासो नाम्ना मित्र सह स्मृदः पल्माशपादसञ्ज्ञश्च दमयन्त्यां तदात्मजः अश्वपाख्यो भवत्पुत्रो ह्यश्वकान्मूलको भवद तदो दशरथो राजा तस्य च इलविलः तस्य विश्व सः तदात्मजः खड्वाङ्गदीर्घबाहुश्च दीर्घबाहो तस्य पुत्रो दशरथश्चत्वारस्तत्सुधा स्मृताः रामलक्ष्मणशत्रुघ्नभरदाश्च महाबलाः रामात् कुशलवौ जादौ भरतात्तार्क्षपुष्करौ चित्राङ्गतश्चन्द्रके दुर्लक्ष्मणात्सं बभूवधूः सुबाहुशूरसेनौ च शत्रुघ्नास्सं बभूवधूः कुशस्य चातिधिपुत्रो निष्रथो ह्यदिधे सुदः निषधस्य नलपुत्रो नलस्य जनभा स्मृतः नभस पुण्डरीकस्तु क्षेमधन्वा तदात्मजः देवानीकस्तस्य पुत्रो देवानीकादहीनः देवानी का अहीनका रुरुर्यज्ञे पारियात्रो रुरोसुतः पारियात्राद्दलो यज्ञे दलपुत्रश्चलस्मृदः चला, चला दुग्धस्तदो ह्युक्ताद्वज्रनाभस्तदो गणः उषिताश्वो गणाज्जज्ञे तदो विश्वसहो भवद हिरण्यनाभस्तत्पुत्रस्तत्पुत्र पुष्पकस्मृदः ध्रुवसन्धिरभूत् पुष्पा ध्रुवसन्ध्वये सुदर्शनः सुदर्शनादग्निवर्णपद्मवर्णोऽग्निवर्णदः शीघ्रस्तु पद्मवर्णात् शीघ्रात्पुत्रो मरुस्त्वभूत मरो प्रसुश्रुतपुत्र तस्य चोदावसु सुके दुर्नन्ति वर्धनाद सुके दुर्देवरादोऽभूत् बृहद्दुग्धस्तदः सुदः बृहद्दुग्धान्मह वीर्य सुधृदिस्तस्य चात्मजः सुधृतिर्दृष्टके दुश्च हय्यशो दृष्टके दुदः हर्यवात्तु मरुदो मरो प्रतीन्धको प्रदीन्तकाकृतिरथो देवमीढस्तदात्मजः विबुधो देवमीढातु देव विभुधातु महाधृतिः महाधृते कीर्तिराधो महारोमा तदात्मजः महारोम्णस्वर्णरोमा ह्रस्वरोमा तदात्मजः सीरध्वजो ह्रस्वरोम् नस्तस्य सीदा तीरध्वजात्तु भानुमान् शतद्युम्नो भानुमदशतद्युम्नाच्युजि स्मृतः उजनामाशुजे पुत्रः सनद्वाजस्तदात्मजः सनद्वाजात्कुलेर्जादो नञ्च नस्तु कुले सुदः अञ्च नाच कुलजित्तस्यापि जातिनेमिकः श्रुतायुस्तस्य पुत्रोऽभूत् सुपार्श्वश्च तदात्मजः सुपार्श्वात्सृजयो जातः क्षेमारिसृजया स्मृतः क्षेमारितस्त्वनेनाश्च तस्य रामरथस्मृदः सत्यरथो राम रथा तस्मादुपगुरुस्मृदः उपगुरोरुपगुप्तस्वागतश्चोपगुप्ततः स्वनरस्वागताज्जज्ञे सुवर्चास्तस्य जात्मजः सुवर्चस्सुपार्श्वस्तु सुश्रुतश्च सुपार्श्वदः जयस्तु जयातु विजयो भवद विजयस्य ऋतपुत्रसृतस्य सुनयः सुदः बहुलाश्वो धृते पुत्रो बहुलाश्वाकृति स्मृतः जनकस्य द्वये वंश्ये उक्तो योगसमाश्रयः इति श्रीकारूडे महापुराणे आचार्यकाण्डे सूर्यवंशवर्णनम् नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ओम्